प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् मावेळश्च यदुश्चैव राजन् यश्चापराजितः एते तस्य सुता राजन् राजर्षेर्भूरि तेजसः न्यवासयन्नामभिस्वैस्ते देशांश्च पुराणि च वासवाः पञ्च राजानः पृथग् उपतस्थुर्महात्मानम् गन्धर्वाप्सरसो नृपम् राजोपरिचरेत्येवम् नाम तस्याथ विश्रुतम् पुरोपवाहिनीम् तस्य नदीम् शुक्तिमतीम् गिरिः अरोत्सी चेतनायुक्तः कामात् कोलाहलः किल गिरिम् कोलाहलम् तम् तु पदा वसुरताडयत् निश्चक्राम ततस्तेन प्रहारविवरेण सा तस्याम् नद्यामजनयन्मिथुनम् पर्वतः स्वयम् तस्माद्विमोक्षणात् प्रीता नदी राज्ञे न्यवेदयत् यः पुमानभवत्तत्र तम् स राजर्षिसत्तमः वसुर्वसुप्रतश्चक्रे सेनापतिमरिन्दमः चकारपत्नीम् कन्याम् तु तथा ताम् गिरिकाम् नृपः वसोः पत्नी तु गिरिकामकालम् न्यवेदयत् ऋतुकालमुप्राता पुंसवन शुचि तदह पितर मूचुर्ज ही